देवि सुप्तं श्रीगुरुभ्यो नमः हरिः ॐ अहं रुद्रेभिर्वशुभिश्चराह्मा आदित्यै ऋतविश्वदे वै अहं निद्रावरुणो भा विभर्म्यहमि इन्द्राग्नि अहमस्विनो भाम् अहं सोममाहनसं विभर्म्यहं तष्टा रमुतपूषणं भगम् अहं दधामि द्रविणं हविष्मति सुप्राव्ये ए, ए, ए, ए यजमानाय शुण्वते अहं राष्ट्रिये सङ्गमनि वचो ऊणां चिकुतुसी ए प्रथमायज्ञयाम् तां मा देवा व्यदुपुरुत्रा भूरिस्थात्रा भूर्या आवेशयन्ति मया सोऽन्नमत्ययो विपश्यति य प्राणीति ऐं शृणोत्युक्तम् अवन्तभोमान्तपक्षियन्ति सुधिसृतश्रद्धिवं ते एद्वदामि अहमेव स्वयमिदं वदामि जुष्टं देवेऽपिरुतमानुसेवी यं कामये तं कृणोमि तं ब्रह्माणं तमृसिं तं सुमेधाम् रुद्राय धनुरातनोमि ब्रह्मद्वसे सर्ववि हन्त वावू अहं जनाय शमदं द्यावा आपृथवी आविवेश अहं सुवेपुत्रमस्य पुत्रमस्य मृधनममम यो निरस्व अन्तसमुद्री ततो वि तिष्ठते भुवनानु विश्वतामुं ध्यां वर्ष्मणुपस्पसामि अहमेव वा तैव प्रवाभ्यारभमाण्डा भुवनानि विस्मा परो दिवा परयेना पृथिव्यैतावति महिना हरिः ॐ मेधासुक्तम् ॐ यच्छन्दसामृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता आसं बभूव समिन्द्रो मेधया आस्मिणोतु अमृतस्य देवधारणो भूयासम् शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा कर्णा आभ्याम्भूरिविस्रुवं ब्रह्मणा कोशोऽसि मेधयापिहितः श्रुतं मे गोपाय ॐ शान्तिः शान्तिः शान्तिः ॐ मेधा देवीजिषमाणान् आगा आम् विश्वाचि भद्राशुमनश्यमाना त्वया जुष्टानुदमाना दुरुक्ता आम् बृहद्वदे मविदिधे सुवीरा आह त्वया देवी त्वया ब्रह्मा गतश्री त्वयाजुष्टश्चित्रं विन्दते वशुशानो जुषश्च द्रमिलोलवेदीं मेधां म इन्द्रो दधातु मेधां देवी सरस्वतीं मेधां मे अश्विनावुभावं पुस्करस्रयाम् अप्सरासु च या श्या आम आं मेधासुरभिर्जसता गं स्वाहा आम आमा आं मेधासुरभिर्विश्वरूपा हिरण्यभरणा जगति जगम्याम् उजस्वती पयसा पिण्डमाना सा मा आं मेधासुप्रतीकाय सुन्ताम् मयि मेधां मयि प्रजां मयि अग्निस्तेजो ददातु मयि मेधां मयि प्रजां मयिन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि प्रजा, सूर्योज्जभ्राजोदधातु ॐ हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु